द्रापे अन्धसो अनन्धसो द्रावे द्रापे अन्धसस्पते पतेम्धसो द्रापे द्रापे अन्धसस्पते अन्धसस्पते पतेम्धसो अनन्धसस्पते दरिद्रत् दरिद्रत् पतेम् धसो अन्धसस्पते दरिद्रते पते दरिद्रदरिद्रत्पते दर, पते दरिद्रन् नीललोहित नीललोहित दरिद्रत्पते पते दरिद्रन्नीलोहित दरिद्रन्नीलोहित नीललोहित दरिद्रदरिद्रन्नीलोहित नीललोहितेति दर दर दर, दर, नील लोहित पुरुषाणाम् पुरुषण मेषाम् पुरुषण मेषाम् समेषाम् पुरुषण मे समेषाम् पुरुषाणाम् पुरुषण पुरुषाणाम् षाणामे पशूनाम् एषां पशूनां पशून पशूनां मामा पशूनां मामा सुना सुना मा भे भेर मा भेर् मा मा भेर् मा भेर् मारो अरो मा भेर् भे मा रहा मारो अरो मा मारो Aro mo esam esam mo, aro aromo esam. Mo esam esam mo mo esam kinkim esam mo mo esam kim mo itimo. ेषाम् किङ्किमेषामेषाम् किञ्चन चन किमेषामेषाङ् किञ्चन ममत् ॐ मदित्या मम याते ते या याते रुद्र रुद्र तेजा याते रुद्र te rudra rudra te te rudra shiva, shiva shiva rudra te te rudra shiva rudra shiva shiva rudra rudra shiva tano stano shiva rudra rudra shiva tanu shiva tano stano shiva shiva tano shiva shiva tano shiva shiva tano shiva shiva tano shiva तनो शिवा शिवा तनोस्तनो शिवा विश्वाः भेषजी विश्वाः भेषजी शिवा तनोस्तनो शिवा विश्वाः भेषजी शिवाभिस्वाह भेषजी विश्वाः भेषजी शिवा शिवा विश्वाः भेषजी विश्वाः भेषजीति विस्वाः भेषजी शिवा रुद्रस्य रुद्रस्य शिवा शिवा रुद्रस्य भेषजी भेषजी रुद्रस्य शिवा शिवा रुद्रस्य भेषजी रुद्रस्य भेषजी भेषजी रुद्रस्य रुद्रस्य भेषजी तया तया भेषजी रुद्रस्य रुद्रस्य भेषजी तया, तया। भेषजीतया तया भेषजी भेषजीतया नो नस्तया भेषजी भेषजीतया नः तया नो नस्तयातया नो मृड मृड नस्तयातया नो मृड नो मृड मृड नो नो मृड जीवसे जीवसे मृड नो नो जीवसे मृड जीवसे जीवसे मृडमृड जीवसे जीवस इति जीवसे इमागुम् रुद्राय रुद्राये मामिमागुम् रुद्राय तपसे तवसे रुद्राये मामिमागुम् रुद्राय तपसे रुद्राय तवसे तवसे रुद्राय रुद्राय तवसे कपर्दिने कपर्दिने तवसे रुद्राय रुद्राय तवसे कपर्दिने का पर्तिने, का पर्तिने, तवसे, तवसे कपर्दिने कपर्दिने तबसे तबसे कपर्दिने क्षयीराय क्षय्वीराय कपर्दिने तबसे तबसे कपर्दिने क्षयधीराय कपर्दिने एषयद्वीराय क्षयद्वीराय कपर्दिने कपर्दिने ए क्षयद्वीराय प्रक्षयद्वीराय कपर्दिने कपर्दिने क्षयद्वीराय प्र क्षयद्वीराय प्रक्षयद्वीराय क्षयद्वीराय प्रभरामहे भरामहे प्रक्षयद्वीराय क्षयद्वीराय प्रभरामहे क्षयद्वीरायेति क्षयत् वीराय प्रभरामहे भरामहे प्रप्रभरामहे मतिम् मतिम् भरामहे प्रभरामहे मतिम् भरामहे मतिम् मतिम् भरामहे भरामहे मतिम् मतिमिति मतिम् यथा नो नो यथा यथा नः सकंसन् नो यथा यथा नः सम् नशुम् शन्नो नः शमसदसच्छन्नो नः शमसत् शमसदसच्छगुम् शमसद्विपदेद्विपदे असच्छगुम् शमसद्विपदे असद्विपदे एद्विपदे असदसद्विपदे चतुष्पदे चतुष्पदे द्विपदे असदसद्विपदे चतुष्पदे द्विपदे चतुष्पदे चतुष्पदे द्विपदेः द्विपदे चतुष्पदे विश्वम् विश्वम् चतुष्पदे द्विपदेः द्विपदे चतुष्पदे विश्वम् द्विपद इति द्विपदेः चतुष्पथे विश्वम् विश्वम् चतुष्पधे चतुष्पथे विश्वम् पुष्टम् पुष्टम् विश्वम् चतुष्पथे चतुष्पथे विश्वम् पुष्टम् चतुष्पद विश्वम इति चतुः पुदे पुष्टम् विश्वम् विश्वम् पुष्टम् ग्रामे ग्रामे पुष्टम् पुष्टम् ग्रामे ग्रामे पुष्टम् पुष्टम् ग्रामे अस्मिन्नस्मिन् ग्रामे पुष्टम् पुष्टम् ग्रामे अस्मिन् ग्रामे अस्मिन्नस्मिन् ग्रामे ग्रामे अस्मिन्नतुरमनातुरमस्मिन् ग्रामे ग्रामे अस्मिन्ननातुरम् अस्मिन्नतुरमनातुरमस्मिन्नस्मिन्ननातुरम् अनातुरमित्यनाः पुरम् मृडा नो नो रुद्र रुद्र नो रुद्र नो रुद्र रुद्र नो नो रुद्रोतोतरुद्र नो नो रुद्रोत रुद्रोतोतरुद्र रुद्रोतनो न रुद्र रुद्रोतनः उत नो न उतो तनो मयोमयोन उतो त नोमयः नो मयोमयो नो नो कृधि कृधिमयो नो नो मयस्कृधि मयस्कृधि कृधिमयोमयस्कृधिक्षयद्वीराय क्षयद्वीराय कृधिमयोमयस्कृधिक्षयद्वीराय कृधि क्षयद्वीराय क्षयद्वीराय कृधि कृधिक्षजद्वीराय नमसा नमसा क्षयद्वीराय कृधिकृधिक्षयद्वीराय नमसा क्षयद्वीराय नमसा नमसा क्षयद्वीराय क्षयद्वीराय नमसा विधेम विधेम नमसा क्षयद्वीराय क्षयद्वीराय नमसा विधेम क्षयद्वीरायेति क्षयत् वीराय नमसा विधेम विधेम नमसा नमसा विधेमते ते विधेम नमसा नमसा विधेमते विधेमते ते विधेम विधेमते तैरिते यच्छंसम् यद्यच्छन्त चषम् यद्यच्छन्त सञ्चतशगुं सञ्चयोर्यौश्चशगुं सञ्चयोः च योर्योश्च चयोश्च चयोश्चचयोश्च योश्चचयोर्योश्चमनुर्मनुश्चयोर्यौश्च मनुः चमनुर्मनुश्च चमनुरायज आजे मनुश्च चमनुरायजे मनुरायज आयजे मनुर्मनुरायजे पिता पितायजे मनुर्मनुरायजे पिता आयजे पिता पितायज आयजे पिता तत्तत्पितायज आयजे पिता तत् आयज इत्याह यजे पिता तत्तत्पिता पिता तदस्यामास्याम तत्पिता पिता तदस्याम तदस्यामास्यामतत्तदस्यामतवतवाः स्याम तत्तदस्याम तव अस्यामतवतवाः श्यामास्याम तव रुद्ररुद्र तवाः स्यामास्याम तव रुद्र तव रुद्र रुद्रतव तव रुद्रप्रणीतो प्रणीतौ रुद्रतव तव रुद्र प्रणीतो रुद्रप्रणीतौ प्रणीतौ रुद्ररुद्रप्रणीतो प्रणीता विति प्रणीतौ मा नो नो मानो महान्तम् महान्तम् नो मानो नो नो महान्तमुतोत महान्तं नो नो महान्तमुत महान्तमुतोत महान्तम् महान्तमुत मा मोद महान्तम् महान्तमुतमा उत मा मोतोतमा नो नो मोतोतमानः मा नो नो मानो र्भकमर्भकम् नो मा मा नो अर्भकम् नो अर्भकमर्भकम् नो नो अर्भकम् मामार्भकम् नो नो नो नो मार्भकमर्भकम् मा नो नो उक्षन्तमुक्षन्त उक्षन्तम् न उक्षन्तमुक्षन्त नो उक्षन्तमुत उक्षन्तमुतोक्षन्तमुक्षन्तमुत उत मा मोतोत मा नो नो मोतोतमानः मा न उक्षितमुक्षितम् नो न उक्षितम् उक्षितमित्युक्षितम् मा नो नो मा नो वधेर्वधेर्नो मा मा नो वधीः नो नो वधेः पितरम् पितरम् वधेर्नो नो वधेः पितरम् वधेः पितरम् पितरम् वधेर्वधेः पितरम् मा मा पितरम् वधेर्वधेः पितरम् मा पितरम् मामा पितरम् पितरम् मोतोतमा पितरम् पितरम् मोत मोतोतमामोत मातरम् मातरमुत मामोत मातरम् उत मातरम् मातरमुतोत प्रिया प्रिया मातरमुतोत मातरम् प्रियाः मातरम् प्रियाः प्रिया मातरम् मातरम् प्रिया मामा प्रिया मातरम् मातरम् प्रिया मा प्रिया मा प्रियाः प्रिया मा नो नो मा प्रियाः प्रिया मानः मा नो नो मानस्तनुवस्तनुवो नो मानस्तनुवः nastano vastano bono nastano varudra rudra tanuvano nastano varudra tanuvano rudra rudra tanuvastano varudra ririshore ririshoru dradano vastano varudra ririshaha rudra ririshore ririshoru rudra rudra ririshaha ीरिष इति रीरिषः मा नो नो मानस्तोके तुके नो मा मानस्तोके नस्तोके तुके नोनस्तोकेतनजेतनजेतोकेनो नस्तोकेतनजे ोके तनजेतनजे तोके तनये, तन जे तोके तनये तन जे मा तन जे मातनजेतन जे मा नो नो मातनजेतन जे मानः मा नो मा मा मा मा मा मा मा मा मा मा नो मा मान आयुषि āyuṣyā yuṣino nā āyuṣīmā māyuṣino nā āyuṣīmā āyuṣīmā māyuṣyā yuṣīmā no no māyuṣyā yuṣīmānaḥ māno no māmano go sugo suno māmano go su naga sukha suno naga sumama goshano naga suma goshama maga goshano naga sumana mano namama no asveshvasvesuno namano asveshu no asveshvasvesuno no अश्वे सुरे शोरेर्स अश्वे सुनो नो अश्वे सुरीर्षः अश्वे सुरे शोरेर्षो अश्वेश्वस्वे सुरेषः ऋर्ष इति रीर्षः वीरान्मा मा वीरान वीरान्मा नो नो वीरा नो नो रुद्रभामितो भामितो रुद्र नो नो रुद्रभामितः रुद्रभामितो भामितो रुद्र रुद्रभामितो वधेर्वधेर्भामितो रुद्र रुद्रभामितो वधीः भामितो वधीर्वधिर्भामितो भामितो वधीर् हविस्मंतो हविष्मन्तो वधीर्भामितो भामितो वधीर भामि भामि हविष्मन्तः वधीर् हविष्मन्तो हविष्मन्तो वधीर्वधीर्हविष्मन्तो नमसा नमसा हविष्मन्तो वधीर्वधीर् हविष्मन्तो नमसा हविष्मन्तो नमसा नमसा हविष्मन्तो हविष्मन्तो नमसा विधेम विधेम नमसा हविष्मन्तो हविष्मन्तो नमसा विधेम नमसा विधेम विधेम नमसा नमसा विधेमते ते विधेम नमसा नमसा विधेमते विधेमते विधेम विधेमते त इति ते आरात्तेत आराधारात्ते गोघ्ने गोघ्नेत आराधारात्ते गोघ्ने ते, ते गोघ्ने गोघ्ने ते ते, ते, ते ते गोघ्न उतोत ते ते गोगने। उत गोघ्न उतोत गोघ्ने गोघ्न उत पूर्वषघ्ने पूरुषघ्न उत गोघ्ने इति गोघ्ने उत पूर्वषघ्ने पूरुषघ्न उतोत पूरुषघ्ने क्षयद्वीराज तोतपूरुषघ्ने क्षयद्वीराय पूरुषघ्ने क्षयद्वीराय क्षयद्वीराय पूरुषघ्ने पूरुषघ्ने क्षयद्वीराय सुम्नगम् सुम्नम् क्षयद्वीराय पूरुषघ्ने पूरुषघ्ने क्षयद्वीराय सुम्नम् पूरुषघ्न इति पूरुष घ्ने क्षयद्वीराय सुम्नगुम् सुम्नम् क्षयद्वीराय क्षयद्वीराय सुम्नमस्मे अस्मे सुम्नम् क्षयद्वीराय क्षयद्वीराय सुम्नमस्मे क्षयद्वीरायेति क्षयत् वीराय सुम्नमस्मे अस्मे सुम्नगुम् सुम्नमस्मेते ते अस्मे सुम्नगुम् सुम्नमस्मेते अस्मेते ते अस्मे अस्मेते अस्त्वस्तुते अस्मे अस्मेते अस्तु अस्मे इत्यस्मे ते अस्त्वस्तुते अस्तु आस्त्वित्यस्तु रक्षा च च नो णश्च च नः च नो च नो अधि नो अध्यधि नो नो अधि च चाधिनो नो अधि च अधि देव च देवदेव च देवब्रूहि ब्रूहि देव च च देवब्रूहि देवब्रूहि ब्रूहि देवदेवब्रूह्यधाध ब्रूहि अधा च चाधा च नो नश्चाधा च नः च नो नश्च च नः शर्म शर्मणश्च शर्म यच्छर्म शर्म यच्छद्विवर्हाद्विवर्हा यच्छर्म शर्म यच्छद्विवर्हा आ यच्छद्विवर्हाद्विवर्हा यच्छद्विबर्हा द्विबर्हा इति द्वि बर्हाः तु हिश्रुतगुं श्रुतगुं तुस्तुहि श्रुतं गर्तसदङ्गर्तसदगुं श्रुतगुं स्तुहिस्तुहि श्रुतं गर्तसदम् श्रुतं गर्तसदङ्गर्तसदगुं श्रुतगुं श्रुतं गर्तसदं युवानं युवानङ्गर्तसदगुं श्रुतगुं श्रुतं गर्तसदं युवानम् गर्तसदम् युवानम् युवानम् गर्तसदम् गर्तसदम् युवानम् मृगम् मृगम् युवानम् गर्तसदम् गर्तसदम् युवानम् मृगम् गर्तसदमिति गर्त सदम् युवानम् मृगम् मृगम् युवानम् युवानम् मृगन्नन मृगम् युवानम् युवानम् मृगन्न मृगन्नन मृगम् मृगन्न भीमम् भीमन्न मृगम् मृगन्न भीमम् न भीमम् भीमन्नन भीममुपहत्नुमुपहत्नुम् भीमन्नन भीममुपहत्नुम् भीममुपहत्नुमुपहत्नुम् भीमम् भीममुपहत्नुमुग्रमुग्रमुपहत्नुम् भीमम् भीममुपहत्नुमुग्रम् मृडा जरित्रे जरित्रे मृडमृडा जरित्रे रुद्र रुद्रजरित्रे मृडमृडा जरित्रे रुद्र जरित्रे रुद्र रुद्रजरित्रे जरित्रे रुद्रस्तवानस्तवानो रुद्रजरित्रे जरित्रे रुद्रस्तवानः रुद्रस्तवानस्तवानो रुद्ररुद्रस्तवान अन्यमन्यग्रस्तवानो रुद्र रुद्रस्तवानो स्तवानो अन्यमन्यग्रस्तवानस्तवान अन्यन्ते ते अन्यन्ते अन्यन्ते ते अस्मदस्मत्ते अन्यमन्यन्ते अस्मत् ते अस्मदस्मत्ते अस्मन्निन्यस्मत्ते अस्मन्नि अस्मन्निन्यस्मदस्मन्निवपन्तु वपन्तु न्यस्मदस्मन्निवपन्तु निवपन्तु वपन्तु निवपन्तु सेनाः सेनावपन्तु निवपन्तु सेना वपन्तु सेनाः सेनावपन्तु वपन्तु सेना आहा सेना इति सेना आ परिणो णः परिपरिणो रुद्रस्य रुद्रस्य नः परिपरिणो रुद्रस्य नो रुद्रस्य रुद्रस्य नो, नो नो रुद्रस्य हेतिर्हेति रुद्रस्य नो नो रुद्रस्य हेतिः रुद्रस्य हेतिर्हेति रुद्रस्य रुद्रस्य हेतिर्वृणक्तुवृणक्तु हेति रुद्रस्य रुद्रस्य हेतिर्वृणक्तु हेतिर्वृणक्तु वृणक्तु हेतिर्हेतिर्वृणक्तु परि परिवृणक्तु हेतिर्हेतिर्वृणक्तु व्रनक्त�, परि वृणक्तु परि वृणक्तु परि त्वेषस्य परिवृणक्तु वृणक्तु परि परित्वेषस्य त्वेषस्य परि परित्वेषस्य शास्या। दुर्मतिर्दुर्मतिस्त्वेषस्य शास्या परि परित्वेषस्य दुर्मतिः त्वेषस्य दुर्मतिर्दुर्मतिस्त्वेषस्य त्वेषस्य दुर्मतिर्घायोर्घायोर्दुर्मतिस्त्वेषस्य त्वेषस्य दुर्मतिर्घायोः दुर्मतिरघायोर्घायोर्दुर्मतिर्दुर्मतिरघायोः दुर्मतिरिति दुः मतिः अघायोरित्यघोः अवस्थिरा स्थिरा वावस्थिरा मघवद्भ्यो वावस्थिरा मघवद्भ्यः स्थिरा मघवद्भ्यो मघवद्भ्यः स्थिरा स्थिरा मघवद्भ्यस्तनुष्वतनुष्वमघवद्भ्यः स्थिरा स्थिरा मघवद्भ्यस्तनुष्व मघवद्भ्यस्तनुष्वतनुष्व मघवद्भ्यो मघवद्भ्यस्तनुष्वमे ध्वोमेध्वस्तनुष्व मघवद्भ्यो मघवद्भ्यस्तनुष्वमे मघवद्भ्य इति मघवत् ध्यः तनुष्वमेनुष्वतनुष्वमे ध्वस्तोकायतोकायमे ढ्वस्तनुष्वतनुष्वमे ध्वस्तोकाय मे ध्वस्तोकायतोकायमे ढ्वोमे ध्वस्तोकायतनयायतनयायतोकायमे ढ्वोमे ध्वस्तोकायतनयाय तोकाय ोकायतनयायतनजायतोकायतोकायतनजाय मृडय मृडयतनजायतोकाय तोकायतनजाय मृडय तनजाय मृडय मृडयतनयायतनयाय मृडय मृडयेति मृडय मी ढुष्टम शिव तम शिव तममेढुष्टममेढुष्टम शिव तम शिव शिव शिव तममेढुष्टममेढुष्टम शिव Shivatamete Shivatama Shivonona Shiva Shivona Sumana Sumanana Shiva Shivona Sumana नः सुमनास्सुमना नो भव भव सुमना नो भव सुमना भव भव सुमनास् सुमना भव सुमना इति सुमना आ भवेति भव परमे वृक्षे वृक्षे परमे परमे वृक्ष आयुधमायुधम् वृक्षे परमे परमे वृक्ष आयुधम् वृक्ष आयुधमायुधम् वृक्षे वृक्ष आयुधम् निधाय निधायायुधम् वृक्षे वृक्ष आयुधम् निधाय आयुधन् निधाय निधायायुधमायुधन् निधाय कृत्तिङ्कृत्तिन् निधायायुधमायुधम् निधाय कृत्तिम् निधाय कृत्तिङ्कृत्तिन् निधाय निधाय कृत्तिम् वसानो वसानः कृत्तिन् निधाय निधाय कृत्तिम् वसानः निधायेदि निय कृत्तिम्बानो वसानः कृत्तिम् कृत्तिम्बान आवसानः कृत्तिम् कृत्तिम्वन आ वसान आवसानो वसान आचरचरावसानो वसान आचर आचरचराचर पिनाकम्पिना कञ्चराचरपिनाकम् चरपिनाकम्पिना कञ्चर चरपिनाकम् बिभ्रत् बिभ्रत् पिना कञ्चर चरपिनाकम् बिभ्रत् पिना कम्बे भ्रद्बिभ्रत्पिना कम्पिना कम कम्बे भ्रदा बेभ्रत्पिना कम्पिना कम्बेभ्रदा बिभ्रदा बेभ्रद्बेभ्रदा भर्द, बे गहि कक्ष्या बेभ्रद्बेभ्रदा गहि आ गहि कक्ष्या गहि गहीति गहि विकिरिद विलोहित विलोहित विकिरिद वि किरिद विलोहित नमो नमो विलोहित विकिरिद वि किरिद विलोहित नमः विकिरिदेतिवि किरिद विलोहित नमो नमो विलोहित विलोहित नमस्ते ते नमो विलोहित विलोहिता नमस्ते विलोहिते तिवि लोहित नमस्ते ते नमो नमस्ते अस्त्वस्तु ते नमो नमस्ते अस्तु ते अस्त्वस्तु ते ते अस्तु भगवो भगवो अस्तु ते ते अस्तु भगवः अस्तु भगवो भगवो अस्त्वस्तु भगवः भगव इति भग वः यास्ते ते यायास्ते सहस्रगुम् सहस्रम् ते यायास्ते सहस्रम् ते सहस्रगुम् सहस्रं ते ते सहस्रगुम्हेतयो हेतयः सहस्रम् ते ते सहस्रगुम्हेतयः सहस्रगुम् हेतयो हेतयः सहस्रगुम् सहस्रगुम् हेतयोन्यमन्यगुम् हेतयः सहस्रगुम् सहस्रगुम् हेतयोन्यम् हेतयोन्यमन्यगुम् हेतयो हेतयोन्यमस्मदस्मदन्यगुम् हेतयो हेतयोन्यमस्मत् अन्यमस्मदस्मदन्यमन्यमस्मन्निन्यस्मदन्यमन्यमस्मन्नि अस्मन्निन्यस्मदस्मन्निवपन्तु वपन्तुन्यस्मदस्मन्निवपन्तु निवपन्तु वपन्तु तास्ता बपन्तु वपन्तु ताः ता इति सहस्राणि सहस्रधा सहस्रधा सहस्राणि सहस्राणि सहस्रधा बाहुवोर्बाहुव सहस्रधा सहस्राणि सहस्राणि सहस्रधा बाहुवोः सहस्रधा बाहुवोर्बाहुवसहस्रधा सहस्रधा बाहुवोस्तव तव बाहु वः सहस्रधा सहस्रधा बाहुवोस्तव सहस्रधेति सहस्र बाहुवोस्तव तव बाहुवोर्बाहुवोस्तव हेतयो हेतयस्तव बाहुवोर्बाहुवोस्तव हेतयः तव हेतयो हेतयस्तव तव हेतयः हेतय इति हेतयः ासामीशान ईशानस्तासान्तासामीशानो भगवो भगव ईशानस्तासान् तासामीशानो भगवः ईशानो भगवो भगव ईशान ईशानो भगवः पराचीना पराचीना भगव ईशान ईशानो भगवः पराचीना भगवः पराचीना पराचीना भगवो भगवः पराचीना मुखा मुखा पराचीना भगवो भगवः पराचीना मुखा भगव इति भग वः पराचीना मुखा मुखा पराचीना पराचीना मुखाकृधि कृधि मुखा पराचीना पराचीना मुखाकृधिखाकृधि कृधि मुखा, मुखा मुखा कृधि कृधिति कृधि द्रापे अंधसो अन्धसो अनन्धसो द्रावे अंधसस्पते अन्धसस्पते पतेऽन्धसो